प्रवाचिका साधना शर्मा हा हा। सेवा कर है। एक साधनाशर्माता दिवस राष्ट्रेण अद वस्तुसेवाकरवसरे वस्तुसेवाकर प्रधानमन्त्रिणा नरेन्द्रमोदिना निगदितं यत् वस्तुसेवाकरेण भारतीय अर्थव्यवस्थायां व्यापकं सम्पूर्ण च परिवर्तनं भवति वित्तमन्त्रिणा पीयूषगोयलेनोदीरितं यत् वस्तुसेवाकरसहयोग अखिलसंघवादस्य चिन्नं अस्ति केन्द्रीय गृहमन्त्री राजनाथ सिंह जम्मूकश्मीरस्य राज्यपालेन एनएन वोहरेण सह राज्यस्य कतिचित् भागेष् जलौघविषये चर्चाम् अकरोत् अपि च उत्तराखण्डस्य पौढी गढ़वाल जनपदे अद्य एकस्यां बस दुर्घटनायां सप्तचत्वारिंशत् जना हा, मृता हा। वर्ष वर्ष वस्तु राष्ट्रेण अद्य वस्तुसेवाकर प्रविधे एकवर्षपूर्त्यवसरे वस्तुसेवाकरदिवस वित्तमन्त्रिणा उदीरितं यत् वस्तुसवाकर सहयोग अखिलसंघवादस्य चिन्नमस्ति अन भारतम् आर्थिकरूपण ऐक्यं भजत अद्य वस्तुसवाकरस्य प्रथम वर्ष अभवत् अवसरस्मिन् नवदिल्ल्यां समायोजिते समारोह गोयल अभाणीत् यत् वस्तुसवाकरेण पारदर्शिता वर्धिता प्रधानमन्त्री प्रधानमन्त्रिणा नरेन्द्रमोदिना निगदितं यत् वस्तुसेवाकरेण भारतीय अर्थव्यवस्थायां व्यापकं सम्पूर्ण च परिवर्तनम् अभवत स्वराजपत्रिकाया प्रदत्ते एकस्मिन् विशेष साक्षात्कारे मोदी अवादीत् यत् अनेन सप्तदशकरा त्रयोविंशति उपकराश्च सम्मिलिता तेन उक्तं यत् वस्तुसेवाकर प्रविधिसमये प्रशासनेन तस्य सारल्यं विश्वसनीयता च रक्षयित् प्रयासा क्रियन्ते अवसरेन्न विचिव हसमुख आड़ीया प्रोतवास्त सक राजस्वे वृद्धि तेन तोक्त ये यदि अवैध विूप प्रयोग न भविष्य तरी आगामीष् मसेष् राजस्व वर्धिश्यते। राष्ट्रपति राष्ट्रपति रामनाथ कोविन्द अवदत् यत् उचित कर व्यवस्थाया अनुपालनेन प्रशासनं राजस्वं तु प्राप्नोति एव भारतीय संविधानानुसारेण सामाजिक उत्तरदायित्वानामपि निर्वाहो भवति तेन प्रोक्तं यत् संविधाने अधिकारै सह अपि उल्लिखितानि सन्ति राष्ट्रपति प्रोक्तवान् यत् वस्त्सेवाकर तत्परिवर्तनम् अस्ति येन व्यापारे करस्य अनुपालनं सरलं जातम् किन्तु पूर्व वित्तमन्त्री वरिष्ठ कांग्रेसनेता पी चिदम्बरं वस्तुसेवाकरप्रविधये प्रशासनं आलोचयतम्नाथम केन्द्रीय गृहमन्त्री राजनाथसिंह जम्मूकश्मीरस्य राज्यपालेन एनएन वोहोरेण सह राज्यस्य बहुष् भागेष् जलौघ विषये चर्चा अकरोत् श्री सिंह आश्वासितवान् यत् स्थितिं निवारयित् यथासम्भवं प्रयासा भविष्यन्ति उत्तराखण्डस्य पौढी गढवाल जनपदे अद्य एकस्यां बस द्र्घटनायां सप्तचत्वारिंशत् जना मृता इयं द्र्घटना अद्य तदा जाता यदा बसयानं नैनी डंडा विभागस्य पीपली भवन मार्गे अपतत बसयानं भवनात् रामनगरं गच्छतासीत चतुस्सप्तति अधिक एकोनविंशतितमे ख्रिष्टाब्दे प्रातः नववादने आकाशवाण्यां प्रथमं वारं संस्कृतवार्ता इयं आकाशवाणी सम्प्रति वार्ता श्रूयन्ताम् इति श्रीबलदेवानन्दसागरस्य ध्वन्या आकाशवाणी अलंकृता ह्य प्रसारिताया संस्कृतवार्ताया चत्श्चत्वारिंशत् वर्षाणि जातानि राजधान्या दिल्ल्या ब्राईयाम् अद्य प्रात एकस्यैव कुट्म्बस्य एकादश सदस्या इति मृता